श्रीमद्भागवत् महापुराणं दशमस्कन्ध अथैकोनचत्वारिंशोऽध्यायः श्रीकृष्णबलरां का मथुरागमन् श्रीशुकुवाच सुखोपविष्टपर्यङ्के रामकृष्णोरुमाणितः लेभे मनोरथान् सर्वान् पथियान् स चकारः किलं किं भगवति प्रसन्ने श्रीनिकेतने तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन सायन्तनाशनं कृत्वा भगवान् देवकी सुतः सुहिस्तुं कंसस्य अपप्रक्षाण्यचिकीर्षितं श्रीभगवानुवाच तात तात कच्चे स्वागतं भद्रमस्तु वः अपि स्वज्ञातबन्धूनाम् अनमीव मनामयं किं नू न कुशलं पृक्षे एधमाले कुलामये कंसे मातुलनाम्यङ्गस्वानां नस्त प्रजासुत अहो अस्मद्भूत्पुरे पित्रोर्विजिनमार्ययोः यद्धेतोपुत्रमरणं यद्धेतोर्बन्धनं तयोः दिष्टाद्यदर्शनं स्वानां मह्यं वा सौम्यकाङ्क्षितम् सञ्जातं वर्णतां तात तवागमनकारणम् श्रीशुकुवाच पृष्टो भगवता सर्वं वर्णयामास माधवः वैरानुबन्धं यदृशो यदुसो यद्रिशु वसुदेव वधूद्यमम् यस्सन्देशो यदर्थं वा दूतसम्प्रेषितः स्वयं यदुक्तं नारदेनास्य स्वजन्मान् कदुन्दुभेः श्रुत्वा क्रूरवचः कृष्णो बलस्य परवीरः प्रहस्य पितरं राज्ञादिष्टं विजज्ञतुः गोपान् समाधिसत्सोऽपि गृह्यतां सर्वगोरस उपायनानि गृण्यध्वं युज्यन्तां सकटानि च यास्यामः सों मधुपुरीं दास्यामो नृपतेरसान् दक्ष्यामः सुमहत्पर्व यान्ति जानपदा किल एवमाघोषयच्छानन्दगोपस गोकुले योप्यस्ता तदुपसृत्य बभूवसिता भृशम् रामकृष्णोपरिं नेतुम् अक्रूरं व्रजमागतं काश्चित्तद् कृतसित्ताप स्वलालमुखश्रियः संसन्दुकूलवलयकेशग्रन्थस्य काश्चन अन्या च नाभ्यजानन्निमं लोकं आत्मलोकं गता इव स्मरन्त्यश्चापरा सौरये अनुरागस्मृतेरिताः ददि प्रसञ्चित्रपदा गिरसम्मुहुः श्रियः गतिं सुललितां चेष्टां दिग्धहासावलोकनं शोकापहाणि नर्माणीं प्रोद्दामचरितानि चिन्तयन्तु मुकुन्दस्य भीता विरहकातराः तमेता सङ्घस प्रोचुरश्रुमुख्योचिताशयाः गोप्यौचः अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्रा प्रणयेन देहिनः तान् सा कृतार्थान् द्यूनङ्ख्यपार्सकं विक्रीडितं तेर्भकचेष्टितं यथा यस्लं प्रदर्श्यास्ति तकुन्तलावृतं मुकुन्दवक्त्रं शुकपोलमुन्नसं शोकापनोदस्मितलेशसुन्दरं करोसि परोक्षंशाधुते कृतं कुरुरस्पं क्रूरं समाक्षया स्मनं चक्षुर्हि दत्तं हरसेवताज्ञवत् येनैकदेशेऽखिलसर्गसौष्मम् त्वदीयमद्राक्षवयं मधुद्विष नानन्दसूनोक्षणभङ्गसौ हृदः तमीक्षते न स्वकृतातुरावत विहाय गेहान्स्वजनान्सुतान् पतिं तद्दासमध्वोपगता नवप्रियः सुखं प्रभाता रजनीयमाशिषः सत्या बभूवो ध्रुवम् या सम्प्रविष्टस्य मुखम् व्रजस्पते पास्यन्त पाकोङ्कलितस्मिताशवम् तासां मुकुन्दो मधुमञ्जुभाषितै गृहीतचित्तपर्वानष्वपि कथम् पुनर्न प्रति यास्यते बला ग्राम्यासलज्ज्य स्मितविभ्रमैर्भवन् अद्य ध्रुवम् तत्र दिशो भविष्यते दासार्षभोजान्धकविष्णुसात्त्वतां महोत्सव श्रीरमणं गुणस्पदं दक्षन्ति ये चाध्वनिदेवकी सुतं मे तद्विधस्या करुणस्य नाम भूद् अक्रूर इत्येतदतीवदारुणः जोसावनाश्वास्य सुखदुःखितं जनं सीं प्रिया प्रियं दे अनार्जधीरे समासितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः गोपानोभिं सविरैरुपेक्षितं दैवं च तु नोद्य प्रतिकूलमीहते निवारयामां समुपेत्यस्माधवं किं नो करिष्यन् कुलवृद्धमान्धवाः मुकुन्दसङ्गान्निमिषार्थदुश्च दैवेन विध्वंसितदीनचेतसां यस्यानुरागलितस्मितवल्गुमन्त्रलीलावलोकपरिरं भणरासगोष्ठां नीतास्मन् क्षणमिव क्षणदाभिनाथं गोप्यकथं वन्वतिन्तरेम तमो दुरन्तं ज्योह्नक्षये व्रजमनन्तसखपरीतो गोपैर्विसङ्खुरजुरितालकस्रक वेणुं कुणन् स्मृतकटाक्षनिरीक्षणेन चित्तं छिणोद्य मुमृते कथं भवेम